चतुर्थोऽध्यायः ज्ञानम् चतुर्थोऽध्यायः ज्ञानम् ओङ्गालाभ्याभाम् कटाक्षैररिगुलभयदा मौलिबद्धेन्दुरेखा ॐ गालाभ्याभाम् कटाक्षैररिगुलभयदा मौलिबद्धेन्दुरेखा शनखम् चक्रम् कृपाणम् त्रिभिरमपि करै रुद्वहन्तीम् त्रिनेत्राम् शनखम् चक्रम् कृपाणम् त्रिभिरमपि तेजसा पूरयन्ती जाये दुर्गाम् जयाख्यां त्रिदश परिवृताम् देविताम् दिग्भितामयीः जाये दुर्गाम् जयाख्याम् त्रिदश परिवृताम् देविताम् दिद्धिकामयीः ॐ रिसिरुवाच ॐ रिसिरुवाच शर्क्रादयतुरगणानि हते दिवीर्ये शर्क्रादय दिवीर्ये तरस्मिन् दुरात्मनि सुरारि बले ददेव्या तरस्मिन् दुरात्मनि सुरारि बले ददेव्या तान् तु स्ववः प्रणति नम्रशिरोधरांसा ताम् तुस्वः प्रणति नम्रशिरोधरांसा वाग्भिप्रहस्य पुलको दमचारुदेहाः वाग्भिप्रहस्य पुलको दमचारुदेहाः देव्या यया तथमिदम् जगदात्मशक्त्या निशेषदेवगणशक्तिसमूहमूर्त्या निशेषदेवगणशक्तिसमूहमूर्त्या सामम्बिका मचिलदेवमहर्षिपूज्याम् सामम्बिकामचिलदेवमहर्षिपूज्याम् भक्त्या यस्याः प्रभावमतुलम् भगवानन्तः यस्याः प्रभावमतुलम् भगवानन्तः ब्रह्माहरश्च न हि वक्तुमलम् बलम् च ब्रह्माहरश्च न हि वक्तुमलम् बलम् च सातण्डिकाखिलजगत्परिपालनाय सातण्डिकाखिलजगत्परिपालनाय नाशाय दाजुभयस्य मतिम् करोतु नासायता शुभयस्य मतिम् करोतु यात्री स्वयम् त्रुकृतिनाम् भवने स्वलक्ष्मीः यास्त्री स्वयम् त्रुकृतिनाम् भवने स्वलक्ष्मीः पापात्मनाम् कृतधियाम् हृदये तु बुद्धिः पापात्मनाम् कृतधियाम् हृदये तु बुद्धिः कुलजनप्रभवस्य लज्जा श्रद्धा कुलजनप्रभवस्य लज्जा आम् त्वाम् परिपालय देवि विश्वम् आम् स्वाम् नतात्मपरिपालय देवि विश्वम् किम् वर्णयाम तव रूपमचिन्त्यमेतत् किं वर्णयाम तव रूपमचिन्त्यमेतत् किं ताति वीर्यमसुरक्षयकारि भूरि किं ताति वीर्यमसुरक्षयकारि भूरि किं दाहवेषु चरितानि चिन्ताहवेषु चरितानि तवाद्भुतानि सर्वे कृतेऽ्यसुरदेव गणातिकेषु सर्वे कृतेऽ्यसुरदेव गणातिकेषु हेतुः समस्त जगताम् त्रिगुणापि दोषैः हेतुः समस्त जगताम् त्रिगुणापि दोषैः न ज्ञायते हरिहरा धीरप्यपारा न ज्ञायते सर्वाश्रयाचिलमिदम् जगदम् च भूतम् सर्वाश्रयाखिलमिदम् जगदम् च भूतम् अव्याजता हि परमा प्रगतिस्वमाध्या अव्याजता हि परमा यस्या समस्तसुरता समुदीरणेन यस्यास्तमस्तसुरता प्रयाति सकले तु मसे प्तिम् प्रयादि सकले तु मसेतु देवी वाहादिवै पितृगणस्य च तृप्तिहेतुः वाहादिवै पितृगणस्य च तृप्तिहेतुः उच्चार्यते त्वमत एव जनै स्वधात उच्चार्यते स्वमत एव जनै स्वधाता या मुक्तिहेतुरविचिन्त्यमहाव्रतात्मम् या मुक्तिहेतुरविचिन्त्यमहाव्रतात्मम् अभ्यस्यते सुनियतेन्द्रियतत्पतादैः अभ्यस्यते सुनियतेन्द्रियतत्पतादैः मोक्षा त्रिभिर्बुधिभिरत्र तमस्तदोषैः मोक्षा त्रिभिर्मुधिभिरत्र तमस्तदोषैः विद्यादिदा भगवती परमाहि देवी विद्यादिदा निधानम् शब्दात्मिकासुर्युषाम् निधानम् उज्जीखरम्यपदपाठवताम् तसाम्नाम् उज्जीथरम्यपदपाठवताम् तसाम्नाम् देवीत्तयी भगवती भवभावनाय देवीत्तयी भगवती भवभावनाय वार्ता च सर्वजगताम् परमार्तिहन्ती वार्ता च सर्वजगताम् परमार्तिहन्ती मेधातिदेवि विजिता किलशास्त्रसारा मेधातिदेवि विजिता किलशास्त्रसारा दुर्गादिदुर्गभवसागरनौरसङ्गा दुर्गादिदुर्गभवसागरनौरसङ्गा श्रीः कैतभारि हृदयैककृताधिवासा गौरीत्वमेव च किमौनि घृतप्रतिष्ठा ईषत्सहासमलम् परिपूर्णचन्द्र ईषत्सहासमलम् परिपूर्णचन्द्र जिम्बानुकारिकनकोत्तमकान्तिकान्तम् जिम्बानुकारिकनकोत्तमकान्तिकान्तम् अत्यद्भुतम् प्रहृतवास्तरुजात अत्यद्भुतम् प्रहृतवास्तरुजा तथाभि वस्त्रम् विलोक्य सहसा महितासुरेण वक्त्रम् विलोक्य सहसा महितासुरेण दृष्ट्वा तु देवि पुटम् भ्रुगुटीकलालम् दृष्ट्वा तु देवि पुटम् सथ्षा भ्रुगुटीकलालम् कुर्द्यखशाङ्कसदृशत्फलियन्न सद्यः कुर्द्यक्षशाङ्कसदृशत्फलियन्न सद्यः प्राणान्मुमोच महिजस्तदतीव चित्रम् प्राणान्मुमोच महिजस्तदतीव चित्रम् कैर्जीयते हि कुपितान्तकदर्शनेन कैर्जीयते हि कुपितान्तकदर्शनेन देवि प्रसीदपरमा भवती भवाय देवि प्रसीदपरमा भवती भवाय सद्यो विनाशयसि कोपभतीकुलानि सद्यो विनाशयसि कोपभतीकुलानि विज्ञातमेतदधुनैव यदस्तमेतते विज्ञातमेतदधुनैव यदस्तमेतते नीतम् बलम् तुलिबुलम् मयि चातुरस्य नीतम् बलम् तुलिबुलम् मयि चातुरस्य तेषम् मता जनपदेषु धनानि पेषाम् तेषम् मता जनपदेषु धनानि तेषाम् तेषाम् यकां स नटसीद विधर्मवर्गः तेषाम् यकां स धन्यास्त एव निवृतात्मजभृत्यधारा धर्म्यास्त एव निभृतात्मजभृत्यधारा येषाम् तनाभ्युदयदा भवती प्रसन्ना येषाम् तनाभ्युदयदा भवती प्रसन्ना धर्म्याणि देवि सकलानि सदैव कर्माणि धर्म्याणि देवि सकलानि सदैव कर्माणि अत्यादृतः प्रतिदिनम् सुकृतीकरोति अत्यादृतः प्रतिदिनम् सुकृतीकरोति स्पर्शम् प्रयाति ददतो भवती प्रसादात् स्पर्शम् प्रयाति ददतो भवती प्रसादात् लोकत्रये विफलदा ननु देवितेन दुर्गे स्मृता हरसि भीतिमठे गजन्तोः दुर्गे स्मृता हरसि भीतिमठे ददाति ृता मतिम शुभा ददारिद्र्युखयारी काधनिया दारिद्र्युखयहारिण काधनियापकारकनाय तदा स्रजिस्सा सर्वोपकारय तदा स्रजिस्सा एर्जगुपै दुखं तथईते एर्जगुपै दुखं तथईते कुर्वन्तु नाम नरकायतिराय पापम् कुर्वन्तु नाम नरकायतिराय पापम् सङ्ग्राम मृत्युमरिगम्यदिवम् प्रयान्तु सङ्ग्राम मृत्युमरिगम्यदिवम् प्रयान्तु मत्पेति नूनमहितान् जिहन्ति देवि मत्पेति नूनमहितान् जिह्ि देवि दृष्ट्वैव किम् न भवती प्रकरोति भद्म विश्वैव किम् न भवती प्रकरोति मद्म सर्वासु रागरिषु यत्रहिनोषि शस्त्रम् सर्वासु रागरिषु यत्रहिनोषि शस्त्रम् लोकान् प्रयान्तु रिपवोपिः कर्तृभूता लोकान् प्रयान्तु रिपवोभिः कर्तृभूता इत्थंवतिर्भवति ते स्वपितेति साध्वी इत्थंवतिर्भवतिते त्वति साध्वी खड्गप्रभानिकरवित्फुरणैस्तथोग्रैः खड्गप्रभानिकरवित्फुरणैस्तथोग्रैः शूलाज्रकान्तिनिवहेन ऋषोधुराणाम् शूलाज्रकान्तिनिवहेन ऋषोधुराणाम् यन् नारदाविलय मंसुमदिन्दुखण्डयोव्याननम् तव विलोकयताम् तदेतत् यन् नारदाविलय मंसुमदिन्दुखण्डयोव्याननम् तव दुर्वृत्तवृत्तकमनम् तव देविचीलम् दुर्वृत्तवृत्तकमनम् तव देविचीलम् रूपम् तथैतदधिचिन्त्यमतुल्यमन्यैः रूपम् तथैतदधिचिन्त्यमतुल्यमन्यैः वीर्यम् च वैरिष्वपि प्रकटितैव दयास्वयेत्थम् वैरिष्वपि प्रकटितैव दयास्त्वयेस्थम् केनोपमा भवतु पराक्रमस्य केनोपमा भवतु तेस्य पराक्रमस्य रूपम् च शत्रुभयकार्य विहारि पय्येव देवि वरदे भुवनत्रयेऽपि पय्येव देवि वरदे भुवनत्रयेऽपि त्रैलोक्यमेतदखिलम् द्विपुनादनेन त्रैलोक्यमेतदखिलम् रिपुनादनेन प्रातम् तया कमरमूर्घनिते विहत्वा प्रातम् तया कमरमूर्धनिते विहत्वा अस्माकमुन्मददुरारि भवम् नमस्ते अस्माकमुन्मददुरारि भवम् नमस्ते शूलेन पाहिनो देवि पाहिफज्ञेन चाम्बिके शूलेन पाहिनो देवि पाहिफज्ञेन चाम्बिके घटण्डात्वनेन नः पाहिकापद्यानि स्वनेन त घण्डा त्वनेन नः पाहिकापद्यानि स्वनेन त स्याम् रक्षप्रतीयाम् च कण्डिकेन कदक्षिणे प्रास्याम् रक्षप्रतीयाम् च कण्ठिकेन कदक्षिणे भ्रामणेनात्मशूलस्य उत्तरस्याम् तथेश्वरि भ्रामणेनात्मशूलस्य उत्तरस्याम् तथेश्वरि सौम्यानि यानिरूपाणि त्रैलोक्ये वितरन्ति ते सौम्यानि यानिरूपाणि त्रैलोक्ये वितरन्ति ते जानितात्यफघोराणि तैरक्तास्माम् तथा भुवम् जानितात्यः फघोराणि तैरक्तास्माम् तथा भुवम् खर्गशोलगदादीनि जानितास्त्राणितेऽम्बिके फर्गशोलगदादीनि जानिता प्राणितेऽम्बिके करपल्लवसङ्गीनि तैरत्मान् रक्षसर्वतः करपल्लवसङ्गीनि ऋषिरुवाच एवम् सुरातुरैर्दिव्यै कुसुमैर्नन्दनोद्भवैः एवम् सुरातुरैर्दिव्यै कुसुमैर्नन्दनोद्भवैः अर्चिताजगताम् धात्री तथा गन्धानुलेपणैः अर्चिताजगताम् धात्री तथागन्धानुलेपणैः भक्त्या समस्तैः कृदशैर्दिव्यैर्भूपैस्तु भूपिता भक्त्या समस्तैः सुदशैर्दिव्यैर्भूपैः सुधूपिता प्राह प्रसादसुमुखी समस्तान् प्रणतानुसुरान् प्राह प्रसादसुमुखी समस्तान् प्रणतान्सुरान् देव्युवाच देव्युवाच प्रियताम् कृदजाः सर्वे यदस्मत्तोऽभिवाञ्छितम् प्रियताम् कृदजाः सर्वे यदस्मत्तोऽभिवाञ्छितम् देवादूतुः देवाऊतुः भगवत्याकृतम् सर्वम् न किञ्चिदवजिष्यते भगवत्यादृतम् सर्वम् न किञ्चिदवजिष्यते यलयम् निहतः शत्रुरस्वाकम् महिजातुरः यलयम् निहतः शत्रुरस्वाकम् महिजातुरः यदि चापि वरो देयस्तयास्माकम् महेश्वरी यदि चापि वरो देयस्तयास्माकम् महेश्वरी संस्कृतार्थम् सुरा त्वं नो हिंसे भाः परमाबलः संस्कृतार्थम् सुरा त्वं नो हिंसे भाः परमाबलः यश्च वर्धस्तवैरेभिः स्वाम् तोच्यत्यमलानने यश्च वर्धस्तवैरेभिः स्वाम् तस्य वित्तर्जि विभवैर्भनदारादिसम्पदाम् तस्य वित्तर्जि विभवैर्भनदारादिसम्पदाम् हृद्भये स्वप्रसन्ना त्वम् भवेधाः सर्वदाम्बिगे हृद्धये स्वप्रसन्ना त्वम् भवेधाः सर्वदाम्बिगे रिजिरुवात रिञ्जिरुवात इति प्रसारिता देवैर्जगतोऽर्थे तथात्मनः इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः तथेत्युक्त्वा भद्रकाली बभूवान्तर्हितान्नृपात् पथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृपा इत्येतत्कथितम् भूपतम् भूता सा यथा पुरा देवी देवशरीरेभ्यो जगत्रयहितैसिनी देवी देवशरीरेभ्यो जनत्रयहितैसिनी पुनश्च गौरी देहासा समुद्भूता यथा भवते पुनश्च गौरी देहाश्च समुद्भूता यथा भवति रधायतुस्तदैस्यानाम् तथा तुम्भनितुम्भयोः रथाय दुस्तदैस्यानाम् तथा तुम्भनितुम्भयोः देवानामुपकारिणी तर्क्षणाय देवानामुपकारिणी तत्क्षुणस्वमयाख्यातुम् यथावत् तत्क्षृणस्व मया आख्यातम् ओम्